सरस्वती रहस्योपनिषत् निहारहारघनसारसुधाकराभां कल्याणदां कनकचम्पकदामभूषाम् उत्तुङ्गपीनकुचकुम्भमनोहराङ्गिं वाणीं न वामि मनसा वचसा विभूत्यै या वेदान्तार्थतत्त्वैकस्वरूपा परमेश्वरी नामरूपात्मना व्यक्ता सा या साङ्गोपाङ्गभेदेषु चतुर्ष्वेर्कैव यावर्णपदवाक्यार्थस्वरूपेणैव वर्तते अनादिनिधनानन्ता सा मां पातु सरस्वती अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी प्रत्यगास्ते वदन्ति या सा मां पातु सरस्वती अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति रुद्रादित्यादिरूपस्थाः सा मां पातु सरस्वती या प्रत्यग्दृष्टिभितिर्वैव्यज्यमानानुभूयते व्यापने ज्ञप्तिरूपैकास् सा मां नामजात्यादिभिर्भेदैरष्टधाया विकल्पिता निर्विकल्पात्मना व्यक्ता सा यां विदित्वाखिलं वन्धं निर्मथ्याखिलवर्त्मनां योगी याति परं स्थानं सा मां पातु नामरूपात्मकं सर्वं यस्यामावेश्यतां पुनः ध्यायन्ति ब्रह्मरूपैकास् सा मां पातु चतुर्मुखमुखाम्भोज वनहंस वधुर्मम मानसे रमतां नित्यं सर्वशुक्ला सरस्वती नमस्ते सारदे देवी काश्मीरपुरवासिनी त्वामहं प्रार्थी नित्यं विद्यादानं च देहि मे अक्षसत्राङ्कुशधरापाशपुस्तकधारिणी मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा कम्बुकण्ठीसुतामोष्ठी सर्वाभरणभूषितां महासरस्वतीदेवीजिह्वाग्रे सन्निवेश्यतां या श्रद्धाधारणा मेधा वाग्देवीविधिवल्लभां भक्तिजिह्वाग्रसदनासमाधिगुणदायिनी नमामि यामनीनाथल्लेखालङ्कृतकुन्तलां भवानीं भवसन्तापलर्वापणसुधानदीं यकवित्वं निरातङ्कं भक्तिमुक्तित वाञ्छति सोभ्यचिनश्चैनां दशश्लोक्या नित्यं स्तौति सरस्वतीं तस्यैवं सुवतो नित्यं समभ्यर्च सरस्वतिम् भक्तृश्रद्धावियुक्तस्य षण्मासात् प्रत्ययो भवे तदा प्रवर्तते वाणीस्वेक्षया ललिताक्षरां गद्यपद्यात्मकैः शब्दैः अप्रमेयै विवक्षितै आशुतो बोध्यते ग्रन्थप्राय सारस्वतकविः ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ तस्य श्रीरामकृष्णार्पणभस्तु